ॐ नमो भगवते वासुदेवाय श्रीमद्भागवतमहापुराणं चतुरसः स्कन्धः अथ प्रथमोऽध्यायः मैत्री उवाच मनोऽस्तु शतरूपायां तिस्रकन्यासुजगिरे आकृतिर्देहुतिश्च प्रसूतिरिति विश्रुता आकृतिं रुचये प्रादादपि भ्रातृमतिं नृपः पत्रिका धर्ममाश्रित्य शतरूपानुमोदितः प्रजापति स भगवान् रुचिरस्तस्यामजीजनत मिथुनं ब्रह्मवर्चस्वी परमेण समाधिनां यस्तयोहं यस्तयोः पुरुष साक्षात् विष्णुर्यज्ञस्वरूपधे या स्त्री सा दक्षिणा आनिन्ये स्वगृहम् पुत्रा पुत्रम् वितरोचि सञ्चिषम् स्वायम्भुवो मुदा युक्तो रुचिर्जग्राहदक्षिणां तां कामयानां भगवानुवाहञ्जुषां पतिः तुष्टायां तोसमापन्नो जनयद्वादशात्मजान् यद्मकविर्विभु स्मसन्नसुदेवो रोचनो द्विषट तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे मरिचिरमिश्रारषयो यज्ञसुरुगणेश्वरः प्रिंव्रतोत्तानपादौ मनुपुत्रौ महोजसौ तत्पुत्रपौत्रं तृणं तृणाम् अनुवृतं तदनन्तरम् देवभूते मदात्तात् कर्दमायात्मजां मनुः तत्सम्बन्धे स प्रायं भवता गदतो मम दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः प्रायच्छद्य कृतसर्गस्त्रिलोक्यां विदतो महान् या कर्दमश्रुताः प्रोक्ता न ब्रह्मर्षि पत्न्ययः तासां प्रसूति प्रसुवं प्रोच्यमानं निबोधमे पत्नीमरीचेस्तु कलाशुचिं शिशुवे कर्तमात्मजा कश्यपं पूर्णिमानं च ययोरापूरितं जगन् पूर्णिमासूतविरजं विश्वकं च परं तप देवकुल्यां हरिपाद शौचाद्याभूसरिद्दिवः अत्रे पत्न्यन् सुयान् त्रिजज्ञे सुयस सुतान् दत्तं दुर्वाससं सोमम् आत्मसि आत्मे स ब्रह्म शम्भवान् विदुर्वाच अत्रेर्गृहे सुरश्रेष्ठा स्थित्योपत्यन्तहेतवः किञ्चि चिकेशवो जाता एतदाख्यासि मे गुरो नैत्री ब्रह्मणानोदितश्रेष्टावतृन् ब्रह्म पिदाम्बरः सपत्न्या यया वृक्षं कुलाद्रिं तपसि स्थितः तस्मिन् प्रसूनस्तवकपराशाशोककालने वर्भि स्रवद्भिरुन्घृष्टे निर्विध्याया समन्ततः प्राणायामेन संयम्यं मनोवर्षशतं मुनिः अतिष्ठतेकपादेन निर्द्वन्द्वो निर्भोजनः शरणं तं प्रपद्येहं य एव जगदीश्वरः प्रजामात्मसमामय्यं प्रयप्सि त्वेति चिन्तयन् तप्यमानं त्रिभुवनं प्राणाजा मेधसाग्निनां निर्गतेन निर्मुन समीक्ष्य प्रभुवश्रयः अप्सरो अप्सरो मुनिगन्धर्वसिद्धविद्याधरोरगैः वितायमान यशसन्तधाश्रमपदं ययुः तत्प्रादुर्भावसंयोगविद्योतीतमना मुनिः उत्तिष्ठन्नेकपादेन ददर्श विदर्शभान् प्रणम्य दण्डवद्भूमा उपतस्थेर्हणाञ्जलिः मृहं संपर्णस्थान् स्वै स्वे चीन्है चिति चिह्नितान् कृपावलोकेन हसन्वदने नोपलम्भितान् तद्रोचा प्रतिशतेन विल्य मुनिरक्षिणे चेतत्तत्प्रवणं यज्ञान्नस्तावीव संहताञ्जलिः सलक्ष्म्या सूक्तया वाचा सर्वलोकगरीयशः अत्रिर्वाच विश्वोद्भवस्थितिलये सुविभज्यमानैर् मायागुणैरनियुगं विगृहीतदेहाः हे ब्रह्मविष्णुगिरिशा प्रणतोऽस्म्यहं वा स्मक एव भवतां मह्योपहूतः एको मयेह भगवान् विबुधप्रधानचित्तीकृतं प्रजननाथ कथं नु यूयम् अत्रागतान्तनुभृतां मनसोऽपि दूराब्रूत प्रसीदतमहान्यविस्मयो मे मैत्री उवाच इति तस्य वच श्रुत्वा त्रयस्ते बुधर्षभाः प्रत्याहोलक्ष्मणया वाचा प्रहस्य च प्रभो